हरि ओम् श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवतमहापुराणे प्रथमस्कन्धे षष्ठोऽध्यायः पुरुषय उचो सौम्यायच्च त्वया प्रोक्तम् चौरेद्युद्धम् महानवे मधुकै च भयो सार्धम् पञ्चवर्षसहस्रगम् कस्मात्त दानवो दातो तस्मिन् दे कार्णवे जले महावीर्यो दुराधश्चो देवैरपि सुदुर्जयौ कथम् तो असुरोदातौ कथम् च हरिणाहतौ तदा चक्ष्वे महाप्राज्ञचरितम् परमाद्भुतम् श्रोतुकामा वयम् सर्वे त्वम् वक्ता च बहु श्रुतः देवाच्चत्रैव सञ्जातः संयोगश्च तथा वयोः मूर्खेण सह संयोगो विशादपि सुदुर्जरः विद्येन सह य संयोग सुधार समस्मृतम् जीवन्ति पशव सर्वे खादन्ति मेहयन्ति च जानन्ति विषया कालम् विवाह सुखमद्भुतम् न तेषाम् च तथ विवेको न च मोक्षतः पशुभिस्ते समाज्ञेया येषाम् न श्रवणादरः मृगाद्याः पिशव केचिज्जानन्ति श्रावणम् सुखम् अश्रोत्रापणिनश्चैव मुह मुहुर्नात् पानतः पञ्चानामिन्द्रियाणाम् वैशुभे श्रवर्णदर्शने श्रवणाद्वस्तु विज्ञातम् दर्शनात् चित्तरञ्जनम् श्रवणं त्रिविधं प्रोक्तम् सात्विकम् राजसम् तथा तामसम् च महाभाग सुज्ञोक्तम् निश्चयान्वितम् सात्विकम् वेदशास्त्रादि साहित्यम् चैव राजसं तामसं युद्धवार्ता च परदोष प्रकाशनम् सात्विकम् त्रिविधम् प्रोक्तम् प्रज्ञावद्भिश्च पण्डितै उत्तमम् मध्यमम् चैव तथैव अधममित्युत उत्तमम् मोक्षफलदम् स्वर्गदम् मध्यमम् तथा अधमम् भोगदम् प्रोक्तम् निर्णीय विदितम् बुधै स्वाहित्यम् चैव त्रिविधम् स्वीयायाञ्चोत्तमम् स्मृतम् मध्यमम् वारयोषायाम् परोढायाम् तथाधमम् तमसम् त्रिविधम् न्येयम् विद्वद्भिः चात्रदर्शिभिः आततायि नियुद्धम् यत् तदुत्तमम् उदाहृतम् मध्यमम् चापि विद्वेषात् पाण्डवानाम् तथारिभिः अधमम् निर्मिनिर्मित्तम् विवादे कलहे तथा तदत्र श्रवणम् मुख्यम् पुराणस्य महामते बुद्धिप्रवर्धनम् पुण्यम् तथा पापप्रणाशनम् तदाख्या हि महाबुद्धि कथाम् पौराणिकीम् शुभाम् श्रुताम् द्वैपायिनात् पूर्वम् सर्वार्थस्य प्रसाधिनीम् सूत उवाच योऽयम् धन्या महाभागात् धन्योऽहम् पृथिवीतले येषाम् श्रवणबुद्धि च ममापि कथने किल पुरा चै वेजाते विलीने भुवनत्रये शेषपर्यङ्कसूक्ते च देवदेवे जनार्दने विष्णुकर्णमलोद्भूतौ दानवो मधुकैठवः महाबलौ च दौ दैत्यो विवृद्धौ सागरे जले क्रीडमानोऽस्थितौ तत्र विचरन्तौ इतस्ततः तौ वेकदा कायो क्रीडासक्तो महानवे चिन्तामवापतुश्चित्ते भ्रातरौ इव संस्थितौ न कारणम् भवेत् कार्यम् सर्वत्रेषा परम्परा अधेयम् तु विनाधारम् न तिष्ठति कथञ्चने आधाराधेयभावस्तु भाति नो चित्तगोचरः क्व तिष्ठति जलम् चेदम् सुखरूपम् सुविस्तरम् केन सृष्टम् कथम् दातम् भग्ना वाञ्जले स्थितौ अवम् वा कथमुत्पन्नौ केन गोत्पादितौ भवतरो क्वेति विज्ञानम् दात्री कामं तथा वयो श्रुतौ वाच एवं कामय मानोतो जग्मतो न उवाच कैटभस्तत्र मधुम् पार्श्वे स्थितम् जले कैटबहुवाच मधो वामत्र सलिले स्थातुम् शक्तिर्महाबला वर्तते भ्रातरचला कारणम् सा हि मे मता तया तदम् इदम् तोयम् तदा धारम् च तिष्ठति सा एव परमादेवी कारणञ्च तथावयोः एवम् विबुध्यमानो चिन्ता वीष्टौ यदा तदाकाशी श्रुतम् ताभ्याम् वाग्बीजम् सुमनोहरम् गृहीतम् च तदस्ताभ्याम् तस्याभ्यासो दृढकृतः तदा सौदामनि दृष्टा ताभ्याम् खेचोत्थिता शिव ताभ्याम् विचारितम् तत्र मन्त्रो यम् नात्र संशयहे तथा ध्यानमिदम् दृष्टम् गगनेशगुणम् किले निराहारोचितात्मानो तन्मनस्को समाहितौ बभूवतुर्विचिन्त्यैवम् जपध्यानपरायणो एवम् वर्षसहस्रम् तु ताभ्याम् तप्तम् महत्तपः प्रसन्ना परमाशक्ति जाता दाता सा परमातयो किन्नौतो दानवो दृष्ट्वा तपसे कृतनिश्चयौ तयोनुग्राथाय वाग्वाचा शरीरिणि परम् वाम् दैत्यो भ्रूतम् परमसम्मतम् ददामि परितुष्टास्मि युवयो तपसा किल श्रोत उवाच इति श्रुत्वा तदा वाणीम् दानव ऊचतुस्थलाय स्वेच्छया मरणम् देवी वरम् नो देहि सुव्रते वाग्वाच वाञ्छितम् दैत्यो भवेद्वाम् मत्प्रसादतः अजेयौ दैव दैत्यैश्च भ्रातरो नादृसंचयः श्रोत इति दत्तवरो देव्या दानवो चक्रतु सागरे क्रीडाम् यादौ गणसमन्वितौ कालेन कियतापि प्रादानवाभ्यां यदृच्छया दृष्ट्या प्रजापतिर्ब्रह्म पद्मासनगतप्रभौ दृष्ट्वा तु मुदिता वास्ताम् युद्धकामो महाबरौ तम् मूचतुस्तदा तत्र युद्धम् नवदेहि सुव्रते नो चेत् पद्मम् परित्यज्य यथेष्टं गच्छमाचरम् यदि त्वम् निर्बलश्चासी क्व योग्यम् शुभमासनम् वीरभोग्यम् इदम् स्थानम् कातरोऽसि तजाशु वै तयो श्रुत्वा चिन्ता माप्रजापतिः दृष्ट्वा च बलिनो वीरो किम् करोमीति तापसः चिन्ताविष्टो चिन्तयन् मनसा तदा इति श्रीमद्देवी भागवते महापुराणे अष्टादशशास्त्राम् सहितायाम् प्रथमस्कन्धे मधुकैष्टभयोर्युद्धोद्योगवर्णनम् नाम श्री श्रीजगदम्बिकायार्वणमस्तु